कामम् पूर्वे धनम् मध्ये जधन्ये धर्ममाचरेत वयस्यनुचरे देवमेष शास्त्रकृतो विधिः धर्मञ्चार्थञ्च कामञ्च यथावद्वदताम् वर विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः मोक्षो वा परमम् श्रेय एष राजन् बुद्धिमास्थाय सोपायाङ्कुरु नन्दन तद्वा सुप्रियताम् राजन् प्राप्तिर्वाप्यधिगम्यताम् जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः विदितश्चैव मे धर्मः सततञ्चरितश्च ते जानन्तस्त्वैषम् सन्ति सुहृदः कर्म चोदनाम् दानम् यज्ञाः पूजा वेद येष धर्मः परो बलवान् प्रेत्यचेह येष नार्थविहीनेन शक्यो राजन्य सेवितुम् अखिलास्पुरुष व्याघ्र गुणा स्यूर्यपीतरे धर्ममूलम् जगद्राजन् विशिष्यते, धर्मश्चार्थेन महता शक्यो राजन्य सेवितुम् न चार्थो नापि क्लैभ्येन तर्हि वेत्म शक्य सदाजन केल धर्म बुद्धि प्रतिषिधा हिते यहाज तेजसैवा थिप्स यात स्वरुष वर्षभ